शमक्प्रश्नः संहितापाठः श्रीगुरुभ्यो नमः हरिः ॐ अग्नाविष्णुसजोषसे मा वर्धन्तु वाजे विरम्नैर्वाजेभिरागतम् वाजष्टमे प्रसवष्टमे प्रयतिष्ठमे प्रसीतिष्टमे धितिष्टमे क्रतुष्टमे स्वरष्टमे श्लोकाष्टमे श्रावष्टमे श्रुतिष्टमे ज्योतिष्टमे शुभष्टमे प्राणाष्टमे पानाष्टमे ज्ञानष्टमे सुतमे चित्तञ्चम आधीपञ्चमे वाक्च मे मनष्टमे चक्षुष्टमे श्रोत्रं च मे दक्षश्च मे बलं च म ऊजश्च मे सहश्च मयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेङ्गानि च मे खीनि च मे परुगंसि च ज्येष्ठं च आधिपत्यं च मे मन्युश्च मे भामश्च मिम्भश्च मे जिम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वस्मा च मे द्राविया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे चवश्च मे धनं च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भवित्यच्च मे सुगं च मे सुपथं च मे वृद्धं च ऋद्धिश्च मे क्लिप्तं च मे क्लिप्तिश्च मे मतिश्च सं च मे मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे यच यशश्च मे भगश्च च मे च मे च मे मे धृतिश्च मे च मे महश्च मे संविच्च मे ज्ञात्रं च मे शूच्यं मे प्रसूच्य मे क्षीरं च मे लयश्च मरितं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातुश्च मे दीर्घायुक्तं च मे नमित्रं च मे भयं च मे शुभं च मे शयनं च मे शोषा च मे सुजिनं च मे ऊच मे सुनितां च मे मयश्च पयश्च मे रसश्च मे घृतं च मे मधुच मे शब्धिष्ठ मे सपीतिश्च मे कृशिपश्च्यश्च मे वेष्टिश्च मे जैत्रं च औभद्यं च मे रयिष्ट मे रायश्च मे पुष्टं च मे पुष्टेष्ट मे विभुच मे भ भुजष्टमे पूर्णं च मे पूर्णतरं च मे चतिष्टमे कूय्वाश्च मेनं च मे चक्षुष्टमे बृहष्टमे यवाष्टमे माषाष्टमे तिला आष्टमे मद्गाष्टमे खल्वा आष्टमे गोधूमा आष्टमे मसुरा आष्टमे प्रियङ्गवष्टमेणवष्टमे श्यामाका अष्टमे निवारा अष्टमे अस्मा च मे मृत्तिका च मे गिरियश्च लोहं च मेघ्निश्च म आपश्च कृष्णपत्यं च मे कृष्टपत्यं च वेत्तं च मे वेत्तिष्ठ मे भूतं च मे भूतिष्ठ मे वचुच मे वसतिष्ठ मे कर्मच मे शक्तिष्ठमे षष्ठमयिभमयि तिष्ठ मे गतिष्ठमे अग्निष्टम इन्द्रष्टमे सोमश्च म इन्द्रष्टमे सविता च म इन्द्रष्टमे सरस्वती चम बृहत्पतिश्च म इन्द्रश्च मे मित्रश्च मेन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा इन्द्रश्च मे धाता इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे लक्ष्मिणौ इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे मे देवा इन्द्रश्च मे पृथ्वी इन्द्रश्च मेन्दक्षं च इन्द्रश्च मे दौश्च इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मुरुधा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगंसूश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागं सूच्य मेन्द्रियाम्यश्च मे इन्द्रभायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रहणश्च मे वैश्वदेव अष्टमी ध्रुवष्टमी वैश्वानरश्च ऋतुग्रहाष्टमी त्रिग्रहाष्टम्यम् इन्द्राग्नष्टमी वैश्वदेवष्टमे मरुत्वदीया अष्टमे माहेन्द्रष्टम आदित्यष्टमी सावित्रष्टमी सारस्वतष्टमी पौष्णष्टमी पात्नीष्टमे हारियोजनष्टमी यद्मश्च मे बहेश्च मे वेदिश्च मे धृष्णीयाश्च मे श्रुतश्च मे तमसाश्च मे ग्रावाणश्च मेश्वर स्वरवश्च म उप उपच्च मे धृष्णवे च मे द्रोणकलशश्च वायव्यानि च मे पूतभृत्यमादिवनीयश्च आग्ने च मे हविरधानं च मे गृहाश्च पुरोलाशा आश्च मे पचताश्च मे वभृतश्च मे श्वाकारश्च मे अग्निष्ट मे घर्मश्च मे ऋकश्च मे सूर्यश्च मे प्राणश्च दिशश्च मे यज्ञेन कल्पन्तां वृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरितुश्च मे च मे होराचयो च मे यज्ञेन कल्पेताम् गर्भा आस्य मे वत्साच्य मेत्रवीश्च मेत्रवीच मेदित्यवाच्य मेदित्यौही च वे पञ्चावीश्च मे पञ्चावीच मेत्रिभस्वच्य मे त्रिभस्सा च पष्टवाच मे पष्टौ हीचम उक्षाच में वशाचम ऋषुभश्च मे वेजच्च मे द्वाच में धेतुश्च आयुर्यज्ञेन कल्पतां त्राणो यज्ञेन कल्पतां पानो यज्ञेन कल्पतां ज्ञानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता गं श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पतां वा यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् एकाच मे तिष्टच्च मे पञ्चच मे सप्तच मे नवचम एकादश च मे त्रयोदश च मे पञ्चदष्ट मे सप्तदष्टमे नवदश्च एकविंशतिष्टमे त्रयोविंशतिष्टमे पञ्चविंशतिष्टमे सप्तविंशतिष्टमे नवविंशतिष्टमं एकस्त्रिग्रंसच्च मे त्र्यस्त्रिग्रंसच्च मे चतुस्रष्टमेौचभे द्वादश्च मे षोडश च में विगसतिश्च मे चतुर्विघसतिश्च भे अष्टाभिघंसतिश्च मे द्वात्रिघंसच्च मे सन्तिघंसच्च भे चत्वारि गंसच्च मे चतुश्चत्वारि गंसच्च मेष्टाचत्वारि घंसच्च भे वाजश्च मे प्रसवश्च मेऽपिजश्च मे क्रतुश्च मेषु वश्चमु नश्चान्त्यश्च भुवनश्च भुवनश्चाधिपत्तिश्च यीडा देवहुर्मनुर्यज्ञे यज्ञनिर्बृहस्पतिरुक्थ मां मदादि स्वगं शिषद्विश्वेदेवाशो उक्तवाच पृथिवी मातर् मामाशिगंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधु मधुवदिष्यामि मधुमतिं देवेभ्यो वाचमुद्याचकं शुश्रूष्रेण्या आं मनुष्ये अभ्यस्तं मा देवा अवन्तु शोभायै पितरोनुमदन्तो ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ दशत् श्रीरामकृष्णार्पणमस्तु